ॐ नमो भगवते वासुदेवाय अथ व्रतोद्यापनविधिकथनन्नाम पञ्चविंशोऽध्याय दृढधन्वोवाच अथ सम्यगवद ब्रह्मनुद्यापनविधिं मुनि पुरुषोत्तममासीय व्रतीनां कृपया नृणां वाल्मीकिरुवाच समासतः प्रवक्ष्यामि मासे श्रीपुरुषोत्तमे उद्यापनविधिं सम्यग् व्रतसम्पूर्णहेतवी कृष्णपक्षे चतुर्दश्यां नवम्यां पुरुषोत्तमे अष्टम्यां वाथ कर्तव्यम् उद्यापनमुदीरितं यथा लब्धोपहारेण मासे श्रीपुरुषोत्तमे पुण्येऽस्मिन् प्रातरुत्थाय कृत्वा पौर्वाह्निकीक्रियाः समाहितमना समाहितमनाभूत्वा त्रिंशद्विप्रान्निमन्त्रयेत् सपत्नीकान् सदाचारान् विष्णुभक्तिपरायणान् यथाशक्त्या सप्त पञ्चवित्तानुसारतः ततो मध्याह्नसमये द्रोणमानेन भूपते तदर्थेन तदर्थेन निजशक्त्यनुसारतः पंचधान्येन कुर्वीत सर्वतो भद्रमुत्तमम् चत्वारः कलशा स्थाप्य हैमावाराजता शुभा ताम्रा वामृण्मयाः शुद्धा अप्रणामण्डलोपरि चतुर्दिक्षु चतुर्व्यूह प्रीतये श्रीफलान्विताः सदपस्त्रिवेष्टिता नागवल्लीदलसमन्विता वासुदेवं हलधरं प्रत्युन्नं देवमुत्तमम् अनिरुद्धं चतुर्ष्वेवं स्थापयेत् कलशेषु च पुरुषोत्तमव्रतारम्भे स्थापितं पुरुषोत्तमम् सराधं देवदेवेशं कलशेन समन्वितम् तत आनीयतनमध्ये मण्डलोपरि विन्यसेत् आचार्यं वैष्णवं कृत्वा वेदवेदाङ्गपारगम् विप्राश्चत्वार एवात्र वर्णीया जपार्थिनां द्वेदे वस्त्रे च दातव्ये हस्तमुद्रादिसंयुते आचार्यं समलङ्कृत्य वस्त्रभूषादिभिर्मुदा ततो देहविशुद्ध्यर्थं प्रायश्चित्तं समाचरेत् ततः पूर्वोक्तविधिना पूजाकार्या सहस्रिया चतुर्व्यूहजपः कार्यो व्रतैर्विप्रैश्चतुर्विधैः चतुर्दिक्षु चतुर प्रकर्तव्या दीपाश्चत्वार उद्धृताः अर्घ्यदानं ततः कार्यं नारिकेल नारिकेलादिविक्रमात् पञ्चरत्नसमायुक्तैर्जानुभ्यां सक्तभूतलः स्वपाणिपुटमध्यस्थैर्यथालब्धैः फलैः शुभैः श्रद्धाभक्तिसमायुक्तः सपत्नीको मुदान्वितः अर्घ्यं दद्यात् प्रहृष्टेन मनसा श्रीहरिन् स्मरन् अथ अर्घ्यमन्त्रः देवदेव नमस्तुभ्यं पुराणपुरुषोत्तमम् गृहाणार्घ्यं मया दत्तं राधया सहितो हरिः वन्दे नवघनश्यामं द्विभुजं मुरलीधरं पीताम्बरधरं देवं सराधं पुरुषोत्तमम् एवं भक्त्या हरिं नत्वा सराधं पुरुषोत्तमं चतुर्थ्यन्तैर्नाममन्त्रैस्तिलहोमं च कारयेत् ततस्तदन्ते तन्मन्त्रै कार्ये तर्पणमार्जने नीराजये ततो देवं सराधं पुरुषोत्तमम् अथ नीराजनमन्त्रः नीराजयामि देवेश मिन्दे वरदलच्छविं राधिकारमणं प्रेम्णां कोटिकन्दर्प सुन्दरम् अथ ध्यानम् अन्तर्ज्योतिरनन्त अन्तर्ज्योतिरनन्तरत्नरचिते सिंहासने संस्थितं वंशीनादविमोहितव्रजवधू वृन्दावने सुन्दरं ध्यायेद्राधिकया सकौ स्तुभमणि प्रद्योतितुरस्थलं राजद्रत्नकिरीटकुण्डलधरं प्रत्यग्रपीताम्बरं ततः पुष्पाञ्जलिं दत्वा धिकासहिते हरौ नमस्कारं प्रकुर्वीत साष्टाङ्गं गृहिणीयुतः नोमि नित्यं घनश्यामं पीतवासमच्युतं श्रीवत्सभासितोरस्कं राधिकासहितं हरिं पूर्णपात्रं ततो दद्याद् ब्रह्मणे सहिरण्यकम् आचार्याय ततो दद्यात् दक्षिणां विपुलां मुदाम् आचार्यं तोषयेद्भक्त्या वस्त्रैराभरणैरपि सपत्नीकं ततो दद्याद् ऋत्विभ्यो दक्षिणां परां धेनुरेका प्रदातव्या सुशीला च पयस्विनी सचैला च सवत्सा च ताम्रपृष्ठी हेमशृङ्गि सरोऽप्यखुरभूषिता घृतपात्रं ततो दद्यात् तिलपात्रं तथैव च उमा महेश्वरं दद्यात् दम्पत्योः परिधायकं पदमष्टविधं दद्याद् उपानद्युगलं तथा श्रीमद्भागवतं दद्याद् वैष्णवाय शक्तिश्चेन्न विलम्बेत चलमायुर्विचारयन् श्रीमद्भागवतं साक्षाद्भगवद्रूपमद्भुतं यो दद्यादवैष्णवायैव पण्डिताय द्विजन्मनि सकोटिकुलमुद्धृत्य ह्यप्सरोगणसेवितः विमानमधिरुह्यैति गोलोकं योगि दुर्लभम् कन्यातानसहस्राणि वाजपेयशतानि च सधान्यक्षेत्रदानानि तुलादानानि यानि च महादानानि यान्यष्टौ छन्दोदानानि यानि च श्रीभागवतदानस्य कलां नार्हन्ति षोडशीं तस्माद्यत्नेन यद् तस्माद्यत्नेन तद्देयं वैष्णवायद्विजन्मनि वस्त्रभूषाभिर्हेमसिंहासनस्थितम् कांस्यानि सम्पुटान्येव त्रिंशद्देयानि सर्वथा त्रिंशत्त्रिंशदपूपैश्च मध्ये सम्पूरितानि च प्रत्यपूपं तु यावन्ति छिद्राणि पृथिवीपते तावद् वर्षसहस्राणि वैकुण्ठे वसते नरः ततप्रयाति प्रयाति गोलोकं निर्गुणं योगि दुर्लभं यदगत्वा न निवर्तन्ते ज्योतिर्धामसनातनम् सार्धप्रस्थद्वयं कांस्यं, संपुटं परिकीर्तितं निर्धनेन यथाशक्त्यै तत्कार्यं व्रतपूर्तयेत् अथवा पूपसामग्रीमपक्वां सफलां परां तत्राधाय प्रदेयं तत् पुरुषोत्तमप्रीतये निमन्त्रितानां विप्राणां सस्त्रीकाणां नराधिपसङ्कल्पं च प्रकुर्वीत् पुरुषोत्तमसन्निधौ अथ श्रीकृष्णजगदाधार जगदानन्ददायक अयः कामुष्मिकान् कामान् निखिलान् पूरयाशु मे इति सम्प्रार्थ्य गोविन्दं भोजयेद्ब्राह्मणान् मुदा सपत्नीकान् सदाचारान् संस्मरन् पुरुषोत्तमम् सम्पूज्यविधिवद्भक्त्या भोजयेद्घृतपायसैः विप्ररूपं हरिं स्मृत्वा स्त्रीरूपां राधिकां स्मरन् भोजनस्य तु सङ्कल्पमाचरेद्विधिना व्रती द्राक्षाभिः कदलीभिश्च च्यूतैश्च विविधैरपि घृतपाजितपक्वान्नैः शुभैश्च माशकैर्वटैः शर्कराघृतपूपैश्च हाणितैः खण्डमण्डकैः उर्वारुकर्कटीशाकै ैश्चसि निम्बुकैः आर्द्रकैश्च सुनिम्बुकैः अन्यैश्च विविधैः शाकै राम्रैः पक्वैः पृथक् चतुर्धा भोजनैरेवौ षड्रसैः सह सङ्गतैः वासितान् गोरसांस्तत्र परिवेश्य मृदु ब्रुवन् इदं स्वादुमुदा भवदर्थे प्रकल्पितं याच्यतां रोचते ब्रह्मन् यन्मया पाचितं प्रभु धन्योऽस्म्यनुगृहीतोऽस्मि जातं मे जन्म सार्थकं भोजयित्वा मुदा विप्रान्तस्ताम्बूलदक्षिणा एलालवङ्गकर्पूर नागवल्लीदलानि च कस्तूरीमुराबांसि च ूर्णं च खदिरं शुभम् एतैश्चियं तस्माद् यो द्विजाक्रियाय एवं कृत्वा प्रयच्छति परितोष्य सपत्नीकान् हस्ते दद्याच्च मोदकान् पत्नीभ्यो वैष्णवीर्द्यात् अलङ्कृत्य विधानतः आसीमान्तमनुव्रज्य ब्राह्मणान्स्तान् विसर्जयेत् नेति मन्त्रेण क्षमाप्य पुरुषोत्तमम् यस्य स्मृत्येति मन्त्रेण नमस्कृत्य जनार्दनं। यदूनं तत्तु सम्पूर्णं विधाज विचरेत् सुखम् अन्नं विभज्य भूतेभ्यो यथाभागमकुत्सयन् भुञ्जीतस्व जनैः सार्धं मिथ्यावादविवर्जितः दर्शस्य दिवसे प्राप्ते कुर्याज्जाधिकासहितं नमस्कृत्य सपत्नीको मुदान्वितः व्रतिविसर्जयेत् देवं सराधं पुरुषोत्तमम् आचार्याय ततो दद्यात् उपहारं समूर्तिकम् अन्नदानं यथा योग्यं दद्यादिच्छानुसारतः येन केनाप्युपायेण व्रतमेतत्समाचरेत् कुर्याच्च पर्याभक्त्या दानं वित्तानुसारतः नारीवाथ नरो वापि व्रतमेतत्समाचरेत् दुःखदारिद्र्यदौर्भाग्यं नाप्नुयाज्जन्म जन्मनि ये कुर्वन्ति जनालोके नानापूर्णमनोरथा नानापूर्णमनोरथाः यान्ति वैकुण्ठमुत्तमम् इत्थं यो विधिमवलम्ब्य चर्करीति श्रीकृष्णप्रियत्तममासमादरेण गोलोकं व्रजति विधूय पापराशिं चात्रत्यं सुखमनुभूय पूर्वपु इति श्रीबृहन्नारदीयपुराणे पुरुषोत्तममासमाहात्म्ये श्रीनारायण नारदसंवादे दृढधन्वोपाख्याने व्रतोऽध्यापनविधिकथनन्नाम पञ्चविंशोऽध्यायः श्रीपुरुषोत्तमार्पणमस्तु